शीतितमः सर्गः ततः प्रभातसमये दिवसेऽथ चतुर्दशे समेत्य राजकर्तारो भरतम् वाक्यमब्रुवन् गतो दशरथः स्वर्गम् योनो गुरुतरो गुरुः रामं प्रव्राज्य वैज्येष्ठं लक्ष्मणम् महाबलं महाबलम् त्वमद्य भवनो राजाराजपुत्रमहायशः सङ्गत्यानापराध्नोति राज्यमेतदनायकम् आभिषेचनिकम् सर्वमिदमादाय राघव प्रतीक्षते त्वाम् स्वजनः श्रेणयश्च नृपात्मजा राज्यम् गृहाण भरत पितृपैतामहम् ध्रुवम् अभिषेचय चात्मानम् पाहि चास्मान्नरर्षभा आभिषेचनिकम् भाण्डम् कृत्वा सर्वम् प्रदक्षिणम् भरतस्तञ्जनम् सर्वम् प्रत्युवाच धृतव्रतः ज्येष्ठस्य राजता नित्यमुचिता हि कुलस्य नः नैवम् भवन्तो माम् वक्तुमर्हन्ति कुशला रामः पूर्वो हि नो भ्राता भविष्यति महीपतिः अहम् त्वरण्ये वत्स्यामि वर्षाणि नव पञ्च महती सेना चतुरङ्गमहाबला आनयिष्याम्यहम् ज्येष्ठम् भ्रातरम् राघवम् वनात् आभिषेचनिकम् चैव सर्वमेतदुपस्कृतम् पुरस्कृत्य गमिष्यामि रामहेतोर्वनम् प्रति तत्रैव तम् न रव्याघ्रमभिषिच्य पुरस्कृतम् आनयिष्यामि वै रामम् हव्यवाहमिवाध्वरात् न स करिष्यामि स्वामि माम् वने वत्स्याम्यहम् दुर्गे रामो राजा भविष्यति क्रियताम् शिल्प्यभिः पन्थाः समानि विषमाणि च रक्षिणश्चानुसञ्ज्ञाम् पथे दुर्गविचारकाः एवम् सम्भाषमाणन्तम् रामहेतोनृपात्मजम् प्रत्युवाच जनः सर्वश्रीमद्वाक्यमनुत्तमम् एवम् ते भाषमाणस्य पद्मा यस्त्वम् ज्येष्ठे नृपसुते पृथिवीम् दातुमिच्छसि अनुत्तमम् तन्त्वचनम् नृपात्मजः प्रभाषितम् संश्रवणे निशम्य प्रहर्षजास्तं प्रहर्षजास्तम् प्रतिबाष्प बिन्दवो निपेतुरार्यानननेत्रसम्भवाः ऊचुस्ते वचनमिदं निशम्य हृष्टाः सामात्याः परिषदो वियात पन्थानम् नरवरभक्तिमाञ्जनश्च व्यादिष्टस्तव वचनाच्च शिल्पि इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे एकोनाशीतितमः सर्गः